ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 27 सेवेन् अर्जुनोपाख्यानं वसिष्ठ उवाच तस्मिन्पुरे सन्तुलितामरेन्द्रपुरिप्रभावे मुनिवर्यधेनुः विनिर्ममेतेषु गृहेषु पश्चात्तद्योग्यनारी नरवृन्दजातं विचित्रवेषाभरणप्रसूनगन्थांशुकालङ्कृतविग्रहाभिः सह वभावाभिरुदारचेष्टा श्रीकान्तिसौन्दर्यगुणान्विताभिः मन्दस्फुरदन्तमरीजिजालविद्योदिताननसरोजजिदेन्दुभाभिः मन्थरकडाक्षनिरीक्षणाभिः प्रीतिप्रसन्नहृदयाभिरधिप्रभाभिशृङ्गार कल्पतरुपुष्पविभूषिताभिः देवाङ्गनातुलिदसौभग सौकुमार्य रूपाभिलाष मकलशोपम मधुराकृतिरिता उतमकलशोपमचारुपीन वक्षोहदय भरा मध्यम श्रोणीपराक्रमणखेदपरिश्रितास्मृकारकरसरुणिताङ्ग्रिभूभिः केयूरहारमणिकङ्कणहेमखण्डसूत्रमलश्रवणमण्डलमण्डिताभिः श्रदमचुम्बित शकुन्तलकेशपाश काञ्चीकलापरिषिञ्चिदनूपुराभिः आमृष्टरोष परिसान्त्वन नर्महास केलीप्रियालपनभर्सन रोषणेषु भावेषु पार्थिव निज प्रियधैर्यबन्धसर्वापहारचतुरेषु कृतान्तराभिः तन्त्रीस्वनोपमिदमञ्चुलसौम्यगेयगन्धर्वतारमधुरारवभाषिणीभिः वीणाप्रवीणतरपाणि भिर गंभीर तलांगुंभीरचक्रचडुवाद रथोत्सुका स्त्रीर्मदाली कुलिद कामुक का कामप्रयोगनिपुणाभिरहीनसम्पदौदार्यरूपगुणशीलसमन्विताभिः सङ्ख्यादिनाभिरनिशं गृहकृत्य कर्मव्यग्रात्मकाभिरपि तत्परिचारिकाभिः पुंभिश्च तत् गुणगणोचितरूपशोभैरुद्भाश्रितैर्गृहचरैः परितः परीतं सराजमार्गापणसौधसत्मसोपानदेवालय चत्वरेषु पौरैरशेषार्थगुणैः समन्तादध्यास्यमानं परिपूर्णकामैः अनेकरत्नोज्ज्वलितैर्विचित्रैः प्रासादसङ्घैरतुलैरसङ्घैः रथाश्वमादङ्गखरोष्ट्रगोजायोग्यैरनेकैरपि मन्दिरैश्च नरेन्द्रसामन्दनिषादिषाधिपदादिसेनापतिनायकानाम् विप्राधिकानां रथिसारथीनां गृहैस्तथा मागधबन्दिनां च महाधनोपस्कर साधु निर्मृश शुभ्रैर्गिकना महारत्नोज्वलोपुर सहस्वगृध्रव्रजनर्तनाल चित्रैर्ध्वजैश्चापि पताकि काभिः शुभ्रैः पटैर्मण्डपिकाभिरुन्नतैः कह्लारकञ्चकुमुदोत्पलरेणुवासितैश्चकाह्व हंस गुररीबकसारसानाम् नानारवाढ्यरमणीयतडाकवापी सरोवरैश्चापि जलोपपन्नैः चूदप्रियालपनसाम्रमधूकजम्बूप्लक्षैर्नवैश्च तरुभिश्च कृतालवालैः पर्यन्तरोऽपिदमनोरम नाग केतकी पुन्नागचम्पनैश्च पदत्रिजुष्टैः मन्दारकुन्दकरवीरमनोज्ञयूधिकाजात्यादिकैर्विविधपुष्पफलैश्च वृक्षैः संलक्ष्यमाणपरितो पवनालिभिश्च संशोभिदं जगदि विस्मयनीयरूपैः सर्वर्तुकप्रवरसौरभवायुमन्द मन्दप्रचारि भर्सिदधर्मकालं इद्धं सुरासुरमनोरम भोगसम्बद्विस्पष्टमानविभवम् नगरं नरेद्र सौभाग्यभोगममिदं मुनिहोम धेनुसद्यो विधाय विनिवेदय दाशु तस्मै ज्ञात्वा तदो मुनिवरो द्विजहोम धेन्वा सम्पादितं नरपदे रुचिरादिधेयम् आहूय कञ्चन तदन्तिकमात्मशिष्यं प्रास्तापयत् गत्वा विशामधिपदेस्तरसा समीपं सम्प्रश्रयं मुनिसुतस्तमिदम्बभाषे आदित्यमस्मदुपपादितमाशुराज्ञा सम्भावनीयमिति नः कुलदेशिकाज्ञा राजा तदो मुनिवरेण कृताभ्यनुज्ञ सम्प्रविश्यत्पुरवरं स्वकृते कृतं सर्वोपभोग्यनिलयं मुनिहोमधेनुसामर्थ्यसूचकमशोषबलैः समेतः अन्धप्रविश्य नगरार्धिमशेषलोकसम्मोहिनीमभिसमीक्ष्य स राजवर्यः प्रीतिप्रसन्नवदनसबलस्तुदानी धीरोऽपि विस्मयमवापभृशं तदानीं गच्छन् सुरस्त्री नयनालियूधपानैकपात्रोचितचारुमूर्तिः रेमे सहैहयपदि पुरराजमार्गे चक्रकुबेरवसदाविवसामरौखः तं प्रस्थितं राजपथात्समन्तात् पौराङ्गनाश्चन्दन वारिसिकृतैः प्रसोनलाजाप्रकरैरजस्रमवीपृषन् सौधगतास्सुधृद्यैः अभ्या कालेय गतार्हणसमुत्सुकपौरकान्दा हस्तारविन्दगलिता मललाजवर्षैः कालेयपङ्कसुरभीकृतनन्दनोद्धशुभ्रप्रसूननिकरैरलिवृन्दगीतैः तत्रत्य पौरवनिताञ्चनरत्नसारमुक्ताभिरप्यनुपदं प्रविकीर्यमामः व्यभ्राजतावनिपदेर्विशदैः समन्ताच्छिदांशुरश्मिनिकरैरिवमन्तराद्रिः ब्राह्मीं तपः श्रियमुदारगणामचिन्त्यां लोकेषु दुर्लभतरां स्पृहणीयशोभां पश्यन्विशामधिपद्दिः पुरसम्पदं तामुच्चैः शशंस मनसा वचसेवराजन् मेने च हैहयपदिर्भुवि दुर्लभेयं क्षात्रीमनोहरतरा महिदा हि सम्पत् अस्या शतांशतुलनामपि नोपगन्तुं विप्रश्रियः प्रभवतीति सुरार्चितायाः मध्ये पुरं पुरजनोपचितां विभूतिमालोकयन् सख पुरोहितमन्त्रिसार्थैः गच्छत्स्वपार्श्वचरदर्शितवर्णसौधो लेभे मुदं पुरजनैः परिपूज्यमानः राजा तदो मुनिवरोपचितां सपर्यामात्मानुरूपमिह सानु चरो लभस्व इत्यश्रमेण नृपतिर्विनिवर्तयित्वा स्वार्थं प्रगल्पितगृहाभिमुखो जगामा। पौरे समेत्य विविधार्हणपाणिभिश्च मार्गे मुदा विरचिताजलिभिः समन्ताद सम्भाविदोऽभ्यनुपदं जयशब्दघोशैस्तूर्यारवैश्च बधिरीकृदधिग्विभागैः कक्षान्तराणि नृपतिशनकैरतीत्यत्रिणिक्रमेण च सम्भ्रमकञ्चुकीनि दूरप्रसारितपृथक् जनसङ्कुलानि सत्माविवेश सचिवादरदत्तहृस्थः तत्र प्रदीप दधिदर्पण गन्धपुष्पदूर्वाक्षतादिभिरलं पुरकामिनीभिः निर्याय राजभवनान्तरतः सलीलमानन्दितो नरपधिर्बहुमानपूर्वकम् ताभिसमाभिविनिवेशिदमाशुनाना रत्नप्रवेकरुजिजालविराजमानम् सूक्ष्मोत्तरच्छदमुदार यशामनोज्ञमध्यारुरोहकनकोत्तरविष्टरं तम् तस्मिन् गृहे नृपतदीयपुरन्ध्रिवर्गस्वासि नमाशु नृपतिर्विविधार्हणाभिः वाद्यादिभिस्तदनुभूषण गन्धपुष्पवस्त्राद्यलङ्कृतिभिरग्र्यमुदं तदान तस्मिन् शेषदिवसोचितकर्म सर्वं निर्वर्त्य हैहयपदि स्वमतानुसारं नानावेधा लयननर्म विचित्रकैलीसम्प्रेक्षितैर्दिनमशेषमलं निनाय कृत्वा दिनान्दसमयोजितकर्म चैव राजास्वमन्त्रिसचिवानुगतसमन्ताद आसन्नभृत्यकरसंस्थितदीपकौधसंशान्त सन्तमसमाशु सदः प्रापेदे तत्रासने समुपविश्य पुरोधमन्त्रिसामन्दनायकशतैः समुपास्यमानः अन्वास्तराजसमिधौ विविधैर्विनोदैर्हृष्टसुरेद्र इव देवपगणैरुपेदः तदस्थिरं विविधवाद्यविनोदनृत्तप्रेक्षाप्रवृत्तहसनादिकथाप्रसङ्गः आसां चकारगणिकाजननर्महासक्रीडाविलासपरितोषितचित् वृत्तिः इद्धं विशामधिपतिर्भृशमानि सार्धं नानाविहारविभवानुभवैरनेकैः स्थित्वानुगान् नरपदीनपि तन्निवासं प्रस्थाप्य वासभवनं स्वयमप्ययाशीद तद्राजसैन्यमखिलं निजवीर्यशौर्य सम्पत्प्रभावमहिमानुगुणं गृहेषु आत्मानुरूपविभवेषु महार्हवस्त्रस्रभूषणादिभिरलं मुदिदम् बभूव सैन्यानि तानि नृपतेर्विविधान्नपानसद्भक्ष्यभोज्य मधुमांस पयो कृैः तृप्तान्यवात्सुरखिलानि सुखोपभौ गैस्तस्यां नरेन्द्रपुरि देवगणादिवीव एवं तदा नरपदेरनुयायिनस्ते नानाविधोजिदसुखानुभवप्रदीदाः अन्योन्यमुचुरिति गेहधनादिभिर्वा किं साध्यते वयमिहैव वसाम सर्वे रापि शार्वरविधानमधो विधाय निर्वर्त्य निद्रामसेवद नरेद्रचिरं इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेऽर्जुनोपाख्याने सप्तविंशतितमोऽध्यायः ओ